अग्न पादुवृत्ति नक्षत्र देविंद्रिय इदमा विचक्षण हविरासंजुहोतला यो येतव ये बा विश्वा भुवना प्रजापते रोहिणी प्रजापतेरोपत्नी विश्व बृभती चिंत्रु सारो यज्ञस्य सुविदे दधातु यथा जीवेव शरदः स वीराः रोहिणी देव्युदघात् पुरस्तात् विश्वारूपाणि प्रतिमोदमाना प्रजापतिगुम् हविषा प्रिया देवानागुपयातु यज्ञम् सोमो राजा मृगशीर्षेण आगन् शिवन्नक्षत्रम् प्रियमस्य धाम आप्यायमानो बहुधा जनेषु नेतप्रजाय यजमाने दधातु यत्ते नक्षत्रम् मृगशीर्षमस्ति प्रियगुम् प्राजन्प्रियतमम् प्रियाणाम् तस्मै सो महविषा विधे सन्न एति त्रिपदे सम् आत्रया आद्रया रुद्रः एति श्रेष्ठो देवानाम् पतिरग्नियानाम् नक्षत्रमस्य हविषा विधेम मानः प्रजागुम्प्रेरिषन्मोदवीरान् हे री रुद्रस्य परिणो वृणक्तु आर्द्रनक्षत्रञ्जुषता प्रमुञ्चमानौ दुरिता निविश्वा अपादशगुम् सन्नुदतामराजिम् पुनर्नो देत्यदिति स्पृणोतु पुनर्वसो नः पुनरेता यज्ञम् पुनर्नो सर्वे पुनः पुनर्वो हविषा यजामः एव न देर्व्यदितिरणर्वा विश्वस्य भर्त्री जगत् प्रतिष्ठा पुनर्वसो हविषा वर्धयन्ती क्रियन्तेर्वा नामप्येर्गुपाथः बृहस्पतिः प्रथमम् जायमानः ष्यन्नक्षत्रमभि सम्बूव श्रेष्ठो देवानाम् पृतना अभयन्नो अस्तु शिष्यः पुरस्तादुतमध्यतो नः बृहस्पतिर्णः परिपातु पश्चात् बाधेतान् एषो अभयम् कृणुताम् सुवीर्यस्य पतयस्याम इरगुम् सर्पेभ्यो हविरस्तु जुष्टम् आश्रयषा एषा मनुयन्ति चेतः ये अन्तरिक्षम् पृथिवीक्षियन्ति तेन सर्पासोऽहवमागमिष्ठाः दले सू ज्या सर्प ये दिवी मनु सचरतीय काम ते सर्पेभ्यो मधुमजुमी उपहूता पितरो पितरोजे मधा मनोजवसः सुकृतः सुकृत्याः त्रेलो नक्षत्रे हवमागमिष्ठाः स्वदाभिर्यज्ञम् प्रयतञ्जुषन्ताम् ये अग्निदग्धा ये, ये मुल्लोकम् पितरः यागुश्च विद्मयागुम् उच न प्रविद्मघासु यज्ञगुम् सुकृतञ्जुषन्ता गवाम् पतिर्फल्गुनीनामसि त्वम् तदर्यमन्वरुणमित्रचारु तन्त्वाभयवंस नितारंसनीनाम् जीवा जीवन्तमुपसंपिषेमा ये नेमा विश्वा भुवना निसञ्जिता यस्य देवा अनुसयन्ति चेतः हर्यमाराजा जरस्तु विश्वान् फल्गुनीना वृषभोरोरवीति श्रेष्ठो देवानाम् भगवो भगासि तत्वा फल्गुनीस्तस्य वित्तात् अस्मभ्यम् क्षत्रमजरगुम् सुवीर्यम् गोमदश्ववधुपसन्नु देह भगोह दाता भगो देवी पल्पुनीराविवेशा भगस्ये तम् प्रसवङ्गमेमा यत्र देवैः स धमालम् मदेमायातु देवः स पितोपयातु हिरण्ययेन वहन्हस्तगं सुभगं हस्तगम् प्रयच्छन्तम् पपुरिम् पुण्यमच्छ हस्तप्रयच्छ त्वमृतम् वशीयः दक्षिणेन प्रतिगृह्णीम एनत् तातारमद्यसभितापि देया यो नो हस्ताय प्रसुवाति यज्ञम् त्वष्टानक्षत्रमभ्येति सुभगं ससंयुवतिगुं रोचमानाम् निवेशयन्नमृतान्मर्त्यागश्च रूपाणि विपुंशन् भुवनानि विश्वा तन्न स्तष्टा तदु चित्रा तन्नः प्रजाम् सनोतु पुंसनोतु अश्वै अश्वैः समनक्तु यज्ञम् वायुर्नक्षत्रमभ्येति निष्ठ्या तिग्मशृङ्गो वृषभोरोरुबाणः समीरयन् भुवना मातरिश्वा अपत्वेषा पुंसिनुदतामरातीः तन्नो वायुस्तदुनिष्ट्या तन्नक्षत्रं तन्नक्षत्रम् भूरिदा अस्तु तन्नो देवासो अनुजानन्तु कामम् यथा तरे मदुरिता ूरमस्मच्छत्र पोयन्तु भीताः तदिन्द्राग्निकृणुताम् तद्विशाखे तन्नो देवा अनुमदन्तु यज्ञम् पश्चात्पुरस्तादभयन्नो अस्तु नक्षत्राणामधिपत्नीपिशाखे श्रेष्ठामिन्द्राज्ञे भुवनस्य गोपौ विशोचः शत्रो न पबाधमानौ अपक्षुधन्नुदतामराजिम् पूर्णा पश्चादृतपूर्णा पुरस्तात् उन्मज्जतः पौर्णमासीजिगाया तस्या देवा अधिसम्पसन्तः तमिलाक इह मादयन्ताम् पृथिवी सुवर्चा युवतिः सजोषाः ओ नमास्युदगाच्छोभमानाम् आप्याजयन्ति दुरितानि उरुन्दुहायजमानाय जा यज्ञम् ऋद्ध्या स्म हव्यैर्नमसोपसर्ज मित्रम् देवम् मित्रधेयन्नो अस्तु अनुबाधान्हविषा वर्धयन्तः शरञ्जीदेव शरदः चित्रन्नक्षत्रमुदगात् पुरस्तात् अनु राधास इति यद्वदन्ती तन्मित्र एति पतिभिर्ते भयानैः हिरण्ययैर्वितैरन्तरिक्षे इन्द्रो यस्मिन्वृत्रम् वृत्रपूर्जे तार तस्मिन् पयममृतम् तुहाः क्षुधन्तरे मदुरितम् दुरिष्टम् पुरन्दराय वृषभाय धृष्टवे अषाढाय सहमानाय मीधुषे न्द्राय ज्येष्ठा मधुमर्दुहाना कुरुङ्कृणोतु यजमानाय लोकम् मूलम् प्रजा वीरवतीम् विलेय पराच्येतुृतिः पराजा गोभिर्नक्षत्रम् पशुभिः अहर्भूयात्यजमानाय मह्यम् अहर्नो अद्य सुविते दधातु मूलम् पराचीम् वाचा निर्वृतिम् या दिव्या आपः पयसा या अंतरिक्ष उत पार्थिवीर्याः या सा मशाधा अनुयन्ति कामम् ता न न भवन्तु मुद्रिया वैशंती ऋतप्रा सचीया मधुभक्ष न आशुस््यो नव तन्नो विश्वे उपशृण्वन्तु देवाः तदशाडा अभिषय्यन्तु यज्ञम् तन्नक्षत्रम् प्रथताम् पशुभ्यः कृषिर्भृष्टिर्यजमानाय कुल्पताम् शुभ्राः कण्यायुवतयः सुपेशसः कर्मत सुवीप विश्वाश वर्धयतीशाधा कामुपयां यहाज यसमेत अमुंच लोकमदूच तरन्नो नक्षत्रमभिजिद्विजित्य श्रियन् दधात्यहृणीयमानम् उभौ लोकौ ब्रह्मणा सञ्जितेमौ तरन्नो नक्षत्रमभिजद्विचष्टाम् तस्मिन्द्वयम् पृतनाः सञ्जयेम तन्नो देवासो अनुजानन्तु कामम् शृण्वन्ति श्रोणाममृतस्य गोपाम् पुण्यामस्य उपशृणोमि वाचम् महीन् प्रतीचीबेनागुहपिशायजामः त्रेधा विष्णुरुगायोऽपि चक्रमे महीन् दिवम् पृथिवीमन्तरिक्षम् त्वच्छ्रोणैजिश्रव इच्छमाना पुण्यदश्लोकै यजमानाय गृह्ती अष्टौ देवा बसवः सोऽन्यासः चदस्रो रजराश्र रजराश्रविष्ठा ते यज्ञम् पान्तु रजः परस्तात् संवत्सरेणममृतग्रस्वस्ति यज्ञं नः दक्षिण तो मानो भी युश्रविष्ठा पुण्य नक्षत्र संविशा मो अतिरघसागन क्षत्र वरुणोधिराज नक्षत्रागुंशतभिष विष्ठ तू येभ्यणुत दीर्घु शदगुंसहस्राभेषजानि धत्तः यज्ञं नो राजा वरुण उपयातु तन्नो विश्वे अभिषयन्तु देवाः तदन्नो नक्षत्रगुंशदभिषक्षुषाणम् दीर्घमायुः प्रतिरद्भेषजानि अज एकपादुदगात् पुरस्तात् विश्वाभूतानि प्रतिमोदमानः तस्य देवाः प्रसमयन्ति सर्वे प्रोष्ठपदासो अमृतस्य गोपाः विभ्राजमानः उग्रः न्तरिक्षमरुहदगञ्ज्याम् तगुंसूर्यन्ते पमचमेकपादम् प्रोष्ठपदासु अनुयन्ति सर्वे अहिर्बुद्धियः प्रथमान एति श्रेष्ठो देवनमुतमानुषाणाम् तम्राह्णाः सोमपा सोम्यासः रोष्ठपदासो अभिरक्षन्ति सर्वे चत्वार एकमभिकर्म देवाः रोष्ठपदास इति यान् ते बुद्धियम् परिशद्य कस्तुवन्तः नमसो रक्षन्ति नमसोपसत्या ऊषारेर्वर्त्यन् वेति पन्था पशुपाजभस्त्यौ इमानि हव्याप्रयताजुषाणाम् सुगैर्नो यानैरुपजाताञ यज्ञम् शुद्रात्पशून् रक्षतुरे नः गावो नो अश्वागुम् अन्वेतु पूषा अन्नगुम् रक्षन्तौ बहुधा विरूपम् वाजगम् सनुतायजमानाय यज्ञम् तदस्वि यावस्वयुजोपयाताम् सुभङ्गमिष्ठौ सुयमेभिरश्वैः स्वन्नक्षत्रगुंहविषा यजन्तौ मध्वा सम्पृक्तौ यजुषासमक्तौ यौ देवानाम् विषजौ हव्यहौ विश्वस्य गोपौ तौ नक्षत्रञ्चचुषाणोपयाताम् नमोऽष्विभ्या कृणुमोऽष्वभ्या अपपाप्मानम् भरणेर्भरन्तु तद्यमो राजा भगवान् विचष्टाम् लोकस्य राजा महतो महान् हि सुगन्नः पन्थामभयम् कृणोतु यस्मिन्नक्षत्रे यमयेति राजा यस्मिन्नेनमभ्यषिञ्चन्तदेवाः तदस्य चित्रगुम्हविषा याम अपपानम् भरणीर्भरन्तु निवेशनी सङ्गमनि वशूनाम् विश्वरूपा निवशून्यापेषयन्ति सहस्रपोषगुंसुभगाराणासा न आगन्वर्चसा संविधाना यत्ते देवा अदधुर्भागदे जममाभास्त्ये सम्पसन्तो महित्वा नो यज्ञम् पिपृहि विश्ववारे रयिणो देहि सुभगे सुवीरम् ॐ शान्तिः शान्तिः शान्तिः